ब्रह्माण्डपुराणं पूर्वभागम् अध्यायम् इलवन् ऋषिसर्गवर्णनं सूत उवाच भृगोख्यादिर्विजज्ञे वै ईश्वरौ सुखदुःखयोः शुभाशुभप्रदातारौ सर्वप्राणभृदामिह ु विधाताौ मन्वर विचारिण तया ज्येष्टा दुभगिनी देंवीश्रीर्लोकनी साधुनारायण दीमा सद्यशोभना नारायणत्मज तम बलोन्मादाता पुत्रस्तु बल्श तेजपुत्रस्त उन्मादुस तस्सापुत्र आसन् व्योम विचारिण वह देवा पुण्यकर्मण मेरुक स्मृते भार्य विधाधा चयतिर्यति तयोः पुत्रौ दृढव्रतौ प्राणश्चैव मृकण्ठश्च भ्रमकोशौ सनातनौ मनस्विन्यां मृकण्डस्य मार्कण्डेयो बभूवः सुधो वेदशिरस्तस्य धूम्रपत्न्यामजायत पीवर्यां वेदशिरः सः मार्कण्डेया समाख्यादा ऋषयो वेदपारगाः प्राणस्य पुण्डरीकायां द्वितिमानात्मजो भवद उन्नतश्च द्वितिमदस्वनवातश्च तावुभौ तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्पराद स्वायम् भुवेन् तरेतिदा मरीचे शृणुतः प्रजाः पत्नीमरीचे सम्भूतिर्विजज्ञे ह्यात्मसम्भवं प्रजापदे पूर्णमासं कन्याश्चेमा निबोधत कृषिर्वृष्टिस्त्विषा चैव तथा चोपचितिशुभा पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयद विरजं चैव धर्मिष्टं पर्वशं चैव तावुभौ विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः सुधामा सदु वैराज्यप्राचीं दिशमुपाश्रितः लोकपालः धर्मात्मा गौरीपुत्रः प्रतापवान् पर्वशः पर्वगणनां प्रविष्टः महायशाः महायशः पर्वशः पर्वशायान्तु जनयामास वै सुतौ यजोर्धामज धीमन्तं स्तम्भकाश्यपमेव तयोर्गोत्रकरौ पुत्रौ जातौ संन्यासनिश्चितौ स्मृतस्त्वङ्गिरस्सः पत्नी जज्ञे स ह्यात्मसम्भवान् पुत्रो कन्याश्चतस्रश्च पुण्यास्तालोकविसृताः सिनीवाली कुहुश्चैव रागा चानुमतिस्तथा तथैव भरदाग्निं कीर्तिम्दौ अग्नेपुत्र च पजन्यं सद्वी सुषुवे तथा हिण्य रोर्जन्यो मरीच्यादप्यद आभूद संपलस्थाई लोकपाल सवैस्मृत यज्ञे कीर्तिमदश्चापि धेनुकावीदकल्मषौ चरिष्णुं धृतिमन्दं च उभावङ्गिरसां वरौ तयोः पुत्राश्च पौत्राश्च अधीता सहस्रशः अनसूयाविजज्ञे वै पञ्चात्रे यानकल्मषान् कन्यां चैव श्रुतिन्नाम मादा शङ्खपदस्य सा कर्दमस्य दुपत्नी सा पौलभस्य प्रजापतेः सत्यनेत्रश्च हव्यश्च आपोमूर्तिश्च नैश्चरः सोमश्च पञ्चमस्तेषामासीत् स्वयं यामदेवैः सहातीताः पञ्चात्रेयाः प्रकीर्तिताः तेषां पुत्राश्च पौत्राश्च आत्रेयाणां महात्मनां स्वायम्भुवेन्दरेति दाशदशोधसहस्रशः प्रीत्याम् पुलस्त्यभार्यायां दानाग्निस्तत्सुतोऽभवद पूर्वजन्मनि सोऽगस्त्यस्मृतस्वयं भुवेंदरे मध्यमो देवबाहुश्च अत्रिनामा चदे त्रयः स्वमा यवीयसी तेषां सद्वती नाम जननी पर्जन्यजननीशुभ्रा पत्नी चाग्ने स्मृताशुभा पौलस्त्यस्य च ब्रह्मर्षे प्रीतिपुत्रस्य धीमतः दाना च सुषुवे पत्नी सुजङ्घी चम्बहून्सुदान् पौलस्त्या यदि विख्याता स्मृता क्षमादु क्षमादुषुषुवे पुत्रान् पुलस्त्यस्य प्रजापदेहे। त्रेदाग्नि सर्वे येषां कीर्तिः प्रतिष्ठिता कर्दमश्चौर्वरीवांश्च सहिष्णुश्चेदिते त्रयः ऋषिः कनकपीठश्च शुभाकन्या च पीवरी कर्दमस्य श्रुतिः पत्नी आत्रेय्य जनयत्स्वयं पुत्रं शङ्कपदं नाम कन्यां काम्यां तथैव च स दक्षिणस्यां दिशिरथकाम्या दत्ताप्रियव्रते काम्याप्रियव्रता लेभे स्वायम्भुव समान् सुधान् दशकन्याद्वयं चैव यैः क्षत्रं सम्प्रवर्तितं पुत्रं कनकपीठस्य सहिष्णुं नाम विश्रुतं यशोधराविजज्ञे वै कामदेवम् सुम्यम क्रधो क्रदु सामन पुत्रा विजज्ञे सन्न दिशु तेषापुत्रो वा सर्वे ते ऊर्धरे दस तीन ष्टि सहसरा वालखिल्याताग्रदो याद परिवार्य दिवाक भूदसम्ब्लवात् सर्वे पतङ्गसहचारिणः स्वसारौ तद्यवीयस्य पुण्या सत्यवतीचते पर्वशस्य श्नुवेते वै पूर्णमासुतस्य तु ऊर्जायां तु वसिष्ठस्य वासिष्ठासप्तजज्ञिरे ज्यायसी च सुता पुण्डरीकासुमध्यमा जननी जननीसाद्युतिमदः प्राणस्य महिषीप्रियाः तस्यास्तु येयवीयांसो वासिष्ठाः सप्तविश्रुताः रक्षो गर्तोर्ध्वबाहुश्च सवनःपवनश्चयः सुतपाः शङ्कुरित्येदे सर्वे सप्तर्षय स्मृताः रत्नो वराङ्ग्यजनयन् मार्कण्डेयी यशस्विनी प्रतीत्यां दिशि राजानं केतुं मन्दं प्रजापदिं गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनां स्वायम्भुवेन्दरेतीधान्यग्नेस्तु शृणुतः प्रजाः इत्येष ऋषिसर्गस्तु सानुबन्धप्रकीर्तितः विस्तरेणानुपूर्व्या च अग्नेर्वक्ष्याम्यतः परम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेनुशङ्खपादे ऋषिसर्गवर्णनं नामयिकादशोऽध्यायः ओम्